गणेशपुराण उपासनाखंडम अयटी नैन ग उवाच यद प्राथिता काम तत्तेखिल प्राप्य सांगसुंदर है भविता सर्वमान्यश्च त्रैलोक्यविजयी तथा पुष्पं फलं किसलयं कामिन्यवयवामरुद उद्बोधकानिदे सन्दुज्योत्स्नाच्चन्दननीरजे मरालाण्डजशब्दश्च जेदास्येतैःरादिकान् दर्शनास्मणादेश मन भविष्य मनोभूस्ृति ना सू ते अस्मृतिमच्चे दृढ़ा भक्ति ते भूरत सैं ब्रह्मोवाच एवं तस्मै वरान् दत्त्वा कामायाध गजाननः अन्तर्दधे महाभाग पश्यत्सुच सुरर्षिषु तत्र कामो महामूर्तिं गणेशस्य तथाविधा सम्पाद्य स्थापयामास पूजयामासतां तदा रदिनिर्मितपक्वान्नैर्मोदकैर्लड्डुकादिभिः मखोत्कटेदि नामास्य तेजस्वित्वा तथाकरोत् प्रासादं निर्ममेकान्तं रत्नस्तम्भविराजितं रुक्मिण्या उदराजादस्त्यक्रो दैत्येन वारिधौ मत्स्येन गिलितस्तत्र स मत्स्योद्धीवरैस्तदः शम्भरायार्पितेनापि मायावत्ये निवेदितः विभिन्नेऽस्मिंस्तदुदरान्निर्गतो वर्धितस्तया नारदो कथयत्तस्यै कामोयं वर्धितस्त्वया उपदिष्टो उपदिष्टोऽनेकमायाशम्बरं स तदोऽवधीत गणेशस्य प्रसादेन बहुनेकोऽ व्यजिज्ञत मायावत्या शिक्षिताभिर्मायाभिर्बहुभिश्च सह प्रद्युम्न यदि विख्याद सरस्वत्याः पुरं ययौ सर्वदेवेषु मान्यश्च त्रैलोक्यजयकारकः गजाननप्रसादेन बभूवानन्दनुर्वृतः रुक्मिणिप्रभृदि स्त्रीभिर्दृष्टकृष्ण इवापरः तद उद्धाय यादाभिर्लज्जिताभिः समन्तदः बुद्ध्वा पुत्रस्य आलि आलिलिङ्गुस्तमभ्यत्य प्रणनामरदिश्चाः सर्वा पुरीहर्षयुधा तस्मिन् ज्ञादे बभूवसा क उवाच एवं जनस्थानगदगणेशस्य महामुने महिमा कथितो यत्र रामेणाच्छेदिनासिका शूर्पणख्यास्तनस्तत्तु नाम्नाख्यातं तु नासिकम् त्राद्यापि हि दृश्यन्त उपलामोदका इव एवम् नाराधितस्तेन कामेनासौ गजाननः षडक्षरेण मन्द्रेण शेषेणाराधितो यथा रतिश्च मदनश्चापि ननन्दतुरुभौ यथा व्यास उवाच कथमाराधितो ब्रह्मन् शेषेणासौ गजाननः किमर्थं किं च तेनाक्तं सुप्रसन्नाद् गजाननाद् यदत् सविस्तरं ब्रूहि पृच्छतश्चदुरान पृष्ठश्रोतुश्च वक्तुश्च यतः पुण्यं विवर्धते ब्रह्मो वाच सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि कथामृतं शृणुष्व वहिदो भूत्वा सर्वं सत्यवती सुता। सत्यवतीसुता कस्मिंश्चित्समये शम्भुः पार्वत्या सहितो मुने सुकासिनो गिरिवरे रम्यसानुशिलोच्चये नानाद्रुमलताकीर्णे निर्जरारावशब्दिदे गुञ्जन्दिभ्रमरा यत्र रुक्मपङ्कजवासिनः चम्बकाशोकबकुलमालदीकुसुमानिलः आनन्दयदि चित्तानि वसतां यस्य शेखरे आयुस्तत् अत्र गन्धर्व अप्सरो यक्षगिन्नराः देवाश्च मुनयो नागास्तं दृष्टुं गिरिजापदीं केचित्तं प्रणिपादेन साष्टाङ्गेनाभ्यवादयन् उच्चैर्जगुश्च गन्धर्व ननृतुश्चाप्सरो गणाः दशभुजं कुपूजुस् दशभुज व्याख्राजनधरम हरी नन्दर्भृंगिगणाकीर्ण बालचंद्रत्रिशूलनम भस्ंगं शेषशिशंक वृषभध्वजिम दुपचारे मनोमय निमील्यनयने तस्तुके के जिध्यानपरायणाः वसिष्ठो वामदेवश्च जमदग्निस्तृदो द्विजः अत्रिकण्वो भरद्वाजो गौतमाद्या मुनीश्वरः तुष्टुवुर्विविधैस्तोत्रैस्तत्र तं पार्वतीपदिम् तु वस्तु तेषु मुनिषु शेषो गर्वपरं व्ययौ अहमेव श्रेष्ठतरो लोकेषु त्रिषु नापरः यदश्रेष्ठतरः शम्भुस्तस्याकम् शिरसि स्थिदः धराद्धरणसामर्थ्यं मयिनान्यत्र कुत्रचिद् वास्तुके रज्जुभूतान्मत्कुलीनादमृदं सुरैः प्राप्तं तदोमरत्वं च तस्मान् नान्योऽस्ति मत्परः तद्धृदिस्थं तदागर्वं ज्ञात्वा शम्भूत्रिलोककृद विज्ञाया किल धृतोष्णीमुत्तस्थौ सहसा शिवः आस्वालयद्धरापृष्ठो शेषं तादृशगर्वितं येकैको मस्तकस्तस्य दशधा दशधा भवद मूर्च्छिधप्रहरार्थं स गदप्राण इवाभवद तदप्रभृत्यसौ जातः सहस्त्रफणिमण्डितः जीवशेषशुशोचाथ शेषोशेषा हि भूषणः अलङ्करणभूतोखं त्रैलोक्य शहरस्यः इमामवस्थां सम्प्राप्तो न जाने केन कर्मणा चलितुं नैव शक्नोमि पक्षहीन इवाण्डजः किं करोमि क्व गच्छामि को मे त्राधुना भवेद् को मे निजपदं प्राप्तागुपायं कथयेच्छुभं गच्छन्दं नारदं मुनिं जहर्ष किञ्चिन्नागेन्द्रस्वप्नं प्राप्येव भिक्षुकः अधिकष्टामवस्थां तां नारदो लोकयत्पुरह निश्चेष्ठं निरनुश्वासं ध्याननिष्ठं यथा मुनिं अशेष अशेषविषयज्ञोऽपि शेषं पप्रच्छनारदः इति श्रीगणेशपुराणे उपासनाखण्डे एको नवतितमोऽध्यायः ओ